कैवल्योपनिषत् प्रथमः खण्डः श्रीगुरुभ्यो नमः हरिः ॐ भद्रं कर्णेऽभिशृणुजामदेवाः भद्रं पश्येम्माख्यभिर्यजत्राः चिरैरङ्गैष्टुभागं सस्तनोभिः यशेमदेव हितैयदायुः स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूजा विश्ववेदाः स्वस्ति नस्ताक्षो अरिष्टनेभिः स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ अथाश्वलायनो भगवन्तं परमेष्ठिनमुपसं समेत्योवाच अधिः भगवन्ब्रह्मविद्यां वरिष्ठां सदा सद्भिसेव्यमानां निगूढां ययाचिरास्सर्वपापं व्यपोष्य परात्परं पुरुषं याति विद्वान् तस्मै सहोवाच स होवाच पिताहमश्च श्रद्धा भक्तिध्यानयोगादवैः न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशु परेण नाकं निहितं गुहायां विभ्रायते अद्यतयो विशन्ति वेदान्तविज्ञानसुनिश्चितार्था संन्यासयोगाद्यतयशुद्धसत्त्वा ते ब्रह्मलोकेषु परान्तकाले परामृतात् परिमुच्यन्ते सर्वे विवित्तदेशे च सुखासनस्थशुचिसमग्रीवशीर शरीर अत्याश्रमस्थ सकलेन्द्रियाली दरिद्रभक्त्या स्वगुरुं प्रणम्य यत्पुण्डरीकं विरजं विशुद्धं विचिन्तमध्ये विशदं विशोकम् अचिन्तमव्यक्तमनन्तरूपं शिवं प्रशान्तम् अमृतं ब्रह्मयोनिम् तथादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् उमाशहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तं ध्यात्वा मृर्गच्छति भूतयोनिं समस्तसाक्षिं तमस परस्तान् स ब्रह्मासशिवसेन्द्रसोऽक्षरपरमश्वरान् स एव विष्णुश प्राणशकालोऽग्निशन्द्रमा स एव सर्वं यद्भूतं यच्च भव्यं सनातनं ज्ञात्वा तं मृत्युमद्येति नान्यपन्था विमुक्तये सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि सम्पश्यन् ब्रह्मपरमं जाति नान्येन हेतुना आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिं ज्ञाननिर्मथनाभ्यासात्पा सं दहति पण्डितः स एव मायापरिमोहितात्मा शरीरमासाय करोति सर्वं स्यन्नपानादिविचित्रभोगैः स एव जागृत्परितृप् स्वप्ने भोक्ता जीव सुखदुःखभोक्ता समायया कल्पितजीवलोके सुसप्तिकाले सकले विलीने तमो तमोविभूतसुखरूपमेति पुनश्च जन्मान्तरकर्मयोगाः स एव जीय स्वप्रतीप्रबुद्ध पुरत्रये क्रीडति यश्च जीव ततस्तु जातं सकलं विचित्रम् आधारमानन्दमखण्डबोधं यस्मिन् त्रयं जातिपुरत्रयं च एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च कं वायुर्ज्योतिरापृथिवी विश्वस्य धारिणी यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् सूक्ष्मात् सूक्ष्मतरं नित्यं तत्पमेव तमेव जाग्रस्वप्नस्य सुप्त्यादिप्रपञ्चं यत् प्रकाशते तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते तेषु धामसि ॐ यद्भोग्यं भोक्ता भोगश्च यद्भवे तेभ्यो विलक्षणसाक्षी चिन्मात्रोऽहं सदाशिवः मय्येव सकलं जातं मयि प्रतिष्ठितम् मयि सर्वं लयं यान्ति तद्ब्रह्माद्वयमस्म्यहं द्वितीयः खण्डः अणोरलीयान्महमेव तद्वनं महानहं विश्वमहं विचित्रं पुरातनोऽहं हम पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्य चक्षुं च शृणोम्य कर्णः अहं विजानामि विक्तरूपो न चास्ति वेत्ता मम चित्सदाहं वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहं न पुण्यपापे मम नास्ति नाशो न जन्मदेहेन्द्रियबुद्धिरस्ति न भूमिरापो न च वह्निरस्ति न चानिलोमेऽस्ति चिन्न चाम्बरं च एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलवद्वितीयं समस्तसाक्षिं सदसद्विहीनं प्रयाति सद्धं परमात्मरूपं य सत्र रुद्रीयमधीते सोऽग्निपूतो भवति सन्वायुपूतो भवति स आत्मपूतो भवति स सुरापानात्पूतो भवति स ब्रह्मत्यायापूतो भवति स सुवर्णस्तेयात्पूतो भवति सकृत्याकृत्यात्पूतो भवति तस्माद् विमुक्तमाश्रितो भवद्वित्याश्रमे सर्वदा सकृद्वा जपे अनेन ज्ञानमाप्नोति संसारार्णवनाशनं तस्मादेवं विदित्वैनं कैवल्यं पदमस्नुते कैवल्यं पदमस्नुत इति ॐ शान्तिः शान्तिः शान्तिः इत्यर्थरुण्ववेदे कैवल्योपनिषत् समाप्ता